Oh uh -huh. देवासुरासंयत्ता आसन्तेनं यजयन्त सजतास्तनोरपश्यता उपधत्तताभिर्वै सीन्द्रजं भीरुजमात्मन्न धत्ततो देवा अभवन् परासुरा इतीन्द्रतनोरुपदधातिनुपमेवताभिरन्द्रजं भीर्जमान आत्मं धरतेन्द्रमेवाजात्मना परास्यभ्यज्ञो देवेभ्यो ग्वन्तोरपश्यं दावुपादधाभिर्वैते यज्ञमवारुन्ध यज्ञधनोरुपदधाति यज्ञमेवदाभिर्जयमानो वरुन्धे त्रयस्त्रिगुंशतमुपदधाति त्रयस्त्रिगुं सद्वे देवता देवता देवावरुन्धे जोसात्मानमेवान्यगुंशतमञ्जुमुदेशात्मा विष्णुं लोके भवति जयेवं वेद ज्योतिष्मतेरुपदधादिज्य ज्योदेवास्मिन्ध्येदाभिर्वा अग्निस्थितोज्ज्वलदिताभिरेवैदुं समिन्ध उपयोरस्मै लोकयोर्ज्योतिर्भवति नक्षत्रेष्टका उपदधात्येतानि वैदिवो ज्योतिगं श्रियान्येवापरुन्धे सुकृतां वा चेदानि ज्योतिगं श्रिया नक्षत्राणि तान्ये वा ज्योतिगं श्रीगुरुदे कस्या नक्षात् यत्सर्गस्पृष्टा उपदध्या दृष्टेकः पर्जन्यश्च न सगः स्पृष्टा उपदधा दृष्ट्या एव लोकम् वर्षकः पर्जन्य भवति पुरस्तादम्याः प्रदेशेन उपदथास्मात् प्राचीनानि च प्रदेशीनानि च नक्षत्राण्या ृतव्या उपदधात् ऋतोनाम् कृत्ये द्वन्द्वमुपदधाति तस्माद्वन्द्वमुपवो धृते भवन्मध्यमाचितिरन्तरिक्षमि भवशाद्वन्द्वमन्नासितस्त्वमध्ये धृत्या अन्तःश्रेषणम् वा एताश्चिते मायदृ यदृ उपदधाच्यते माम् विधत्या अवगामनोपदधात् तेषा वा उपाचः विश्वामित्रोत् स ब्रह्मणाैता उपथीजाेता वा ेव्यामार्क्षत्रङ्गिरसस्वर्गं लोकैयं गो या यज्ञस्य निष्कृतिरासेत्थामिषभ्यः प्रत्योऽहं तद्भिरण्यमभवद्यद्भिरण्यसङ्के प्रोक्षति यज्ञस्य निष्कृत्यावास्मैकोर्गसो रूपेणैवैभं हिरण्य ज्योतिषैव सुवर्गम् लोकमेति साहस्रमता प्रोक्षति साहस्रः प्रजापतिः प्रजापते रात्र्यामे अग्नजिष्टगाधेनवस्सन् विद्याहते नोरेवै कुरुते ता एनङ्गामदुघा अमप्रामुष्मिन्लोक उपतिष्ठन्ते रुद्रो वा एष यदग्निश्चेतरिः सर्वश्चि तस्यैव ुजाग्जुराजवाग् वाशो नीनस्ति नारण्यान खल्वाहुरनाहुतिर्वे धर्तिराश्च गवेधुकाश्चेत्यक्षीरेण जुहोक्त्याग्नेवाजदजाहुत्यै पशोनहिनस्ति नारण्यानं कर्मम् प्राशिञ्चन् सा शोचन्दे वर्णम् पराजहेतसो ष्टकायां जुहोत्यन्दनदेव रुद्रम् निरवदयते त्रेधा भक्तं प्रजमे लोकायमानेव लोकान् प्रज्मे लोकाय भजे वैनं लोकेभ्यः शमयति स उत्तराहुजे सम्बध्यन्ते षड्वारुतवरुभिदे वैनकं शमयतिग्रामं जुहुजानन्द्रं गुरु खलु कस्याम्बाहि रुद्रः कस्यां वेत्यर्गमे वैनकुं शमयत्य तावर्यायामुत्तमास्तायजमानं च यदिताभिरेवैनकं सुवर्गम् लोकङ्गमयदि यम् दृश्यात् तस्य सञ्चरे पशो नान्यस्यः प्रसमः वै ष्मन्नोर्जमिति परिषिञ्चति मार्जयत्यैवै नमथोदप्पजत्येव सजनं दुप्तो क्षुत्भन्न शोचन्नमस्मिपतिष्ठते दृप्यते प्रजदापशिरजेरन्नमरुदस्य गोरतां मरुतोन्नमेवान्ते क्षुतमुं देशं विष्णयुज्याहजमे वद्वे तमस्य क्षुधाति त्रिः परिषन् पर्ये त्रिवृद्वा अग्निर्जावाने वास्तस्य त्रिः पुनः पर्ये षट् संपर्जन्ते षड् वार्तवरुं समयत्यश्च विकर्षच्चान्ता शान्ताभिरेवा शिशुचकुं समयति लो वा अग्निंसितं प्रथमः धिकामते स्वरोवेदकं स च प्रदहो मण्डोके करिषत्य ष्टाभिक्षरा गायत्री गायत्रोग्निर्जावा नैवान्यस्तस्य शुचकं शमयति पावकवदेभिरन्नम्बै पापकोऽन्यैवास्य शुचकं शमयति मृत्युरुवाहेषयदग्निर्ब्रह्मण जद्रोप यत्कृष्णाजिनं काष्णे उपवानहामुपमन्थने ब्रह्मणैव मृत्योरन्तर्धत्तेऽन्तर्मृत्योर्धते नित्याहुरं ज्ञामुञ्चन्तरेव मृत्योर्धते नमस्ते वसेजागं समुपचरं चन्दन्ते अस्मप्तयामस्य सुचार्पयति पाभगोगं शिवो भवेत्या ै पावकोन्नमे वावरन्धे द्वाभ्यामधिक्रामधि प्रतिष्ठि ध्या अपस्यपदे ृहदेघारयति पञ्चाहृद्यायज्ञमारभतेयति तस्मादक्षाङ्गानि प्रहरन्त्यक्षागुत्याहक्षमे भवं यक्षागं सद्घन् वा ो न्येतानक्चि देवो भजान् प्रीणादिवा देवानामिति दध्ना मथु मिश्रेणावोक्षति हुदानश्चैव देवानहुतानश्च यजमानः प्रीणादिते यजमानम् प्रेणम् दि दध्नैव हुतादः प्रीणादि मथु साहुजादो राम्यम् वा यतदन्नै यद्दध्यारण्यम् मधु यद्दध्ना मधु मिश्रेणावो क्षत्य भजस्यावरुध्यै गृष्टिनाभो प्राजामत्यो मयि ग्रमुष्टिस्स यो नित्वा दद्वाभ्यां प्रतिष्ठित्यावर्गमे वैनान् प्रेमादिविवादेश प्राणेदा पशुभिन्धो गञ्चन्मन्थग्रामदि प्राणदा अपाणदा इत्याह प्राणानेवात्मन् धत्तेवचोदा परिभोदा इन्द्रो वृत्रमहन्तं वृत्रो हतशो भोगे रसिजेनेकवध आहुयमपश्यप्तामजुत्तस्याग्निरनेकवान् स्वेन भागधयलेन प्रेत षोडशधा वृत्रस्त भोगानभ्यरहद्वैष्वगम् आहुलं जुहोत्यग्निरेवास्यानेकवान् स्वेन भागधयलेन वेदः पाप्मानः ैश्वकर्मणेन पात्मनो निर्मोच्यते जङ्कामयत चिरम् आत्मनो निर्मोच्यतेत्यैकैकं तथा प्रतिष्ठति मुत्तरान्नति समिथ आदधाति यथा जनैदेवसं करोति तादृगेव दत्तिस्र आदधा युवर्ध्वा अग्निर्जावा नैवाग्निस्तस्मै भागधेयं करोत्य उदुम्बरेर्भवन्योर्ग्मा पुदुम्बरवोर्जमेवास्मापि दधात्युदुत्वा विश्वे इत्याह प्राणा वै विश्वे देवा प्राणैरेवै नमुद्यच्छते ज्ञेफलं यस्मादेवैक्षते समर्थयिशो दैवीयाशो ह्येषो वामजिन्दुर्महत्ये राजस्पोषे यज्ञपतिमा भजन्ति नित्याः शवो वे राजस्पोषः पशूने वाभजन्ते षड्भिर्हरति षड्वारितवरतिभिरे वैनगुं हरदि ृह्यवते भवतो रक्षसामवहत्यस्तादित्याः प्रसूर्त्येशतः पावकाः शिषो नो जुषन्तानित्याहा पावकोऽन्नमे वारन्ते देवासुरासंयत्तासन्ते देवाय तत प्रतिरथमपश्यन्ते न वै ते प्रत्यसुरा न जयं तत प्रतिरथस्य प्रतिरथ संयत प्रतिरथं दिन्व प्रत्यवधय न यजमानोऽ क्षरा विराट् विराजमौ लोकौ विधृता वनजोर्लोकजोदशाक्षरा विराडन्नं विराट् विराज्यवान्नाद्यतिष्ठत्य सति भवा अन्तरिक्षमन्तरिक्षमिवाग्ने ृधिष्ठित्यै विमानदेश दिवो मध्य आस्तहं ये वै तजामिते मध्ये दिवो निहितः कृष्णरश्मेत्याहानं वै कृष्णन्नमे वा वरुन्धे च तावुच्छादे चत्वारि छन्दागुंसि छन्दोभिरेवेन्द्रं विश्वा नित्याहवृद्धिमेवो वा सत्वतिं पतिमित्याहां वै वाजोऽन्नमे यज्ञो देवालुम् आचवक्षदित्याः प्रजामे पशवः सुम्नम् प्रजामेव पशूनात्मन्धक्षदग्निर्देवो देवालुम् वाचवक्षदित्याः स्वजागृत्यैवाजस्य माप्रसवेणो ग्राहेणोदग्रतीत्याः सौवादित्य उद्युग्राभदेश प्राचीमनुप्रदिशं प्रेहि विद्वा निद्याहलेवलोकमे वैतलोपावर्तरे क्रमथमग्निनागमित्याहे माने वैतजालोकान् क्रमदेव सुजाहमुदं धरि क्षमारोहमित्याहे माने वैतजालोकान् समारोहले सुवर्गिन्दो नापेः क्षन्दजिद्याः सुवर्गमे वैतजालोकमेत्यग्ने प्रेहि प्रसमो देवदतामित्याहो भलेष्वे वैतजा ेवुचक्षुर्दधाभिरधिक्रामतिपान्दो यज्ञो यावा न सहसुवर्गं सेति पुरोनुवाक्यामन्वाग्ने सहस्राक्षेत्याहसाहस्र प्रजापदे तस्मै ते विधेमवास्वाहेत्याहा वरुन्धे रः पूर्णा मौलुम्बदेयश्व न्यस्तप्रतिष्ठाङ्गमयति प्रेभ्योग् पुराणयित्यौदुम्बरे मादधात्येशा वै सोर्मे कर्णका वच्चेदया हस्म वै देवा असुराणायुंशतरु ये ृत्यावैकं गे माधातिग्निचिद्वाग्नन्दुहेतागुं सवितुर्वरेण्यस्य हैषवा अग्नेर्दोहस्तमस्य कण्मदेश्वासौ वेत्येन हस्मैस दुहे यदे तजा समिधमादधात्यग्निचिदेव तदग्निं दुहे सप्तते अग्ने समिधः सप्तचिग्त्याह सप्तैवासप्तानि क्रीणादि पोर्णजाजहोरिपोर्णलिवहि प्रजापति प्रजापतेराप्ते न्योनजाजहोरिन्योनाध्ये प्रजासृजत प्रजानागं सृष्ट्या ग्निर्देवेभ्यो निलाजदस दिशो न प्राविशज्जुह्वन्मनसा दिशो ध्याजे दिग्भ्यदेवै नमवरुन्धे तथ्ना पुरस्ताज्य नोपरिष्टात्यजश्चिवास्माकिं दृगञ्च समेधे तथा दिन्द्वादश कपालो वैश्वानरो भव दिद्वादशमासाः संवत्सरः संवत्सरो प्रजाधानो जाताद्विगस्तिस्ता यज्ञस्य दर्विह मङ्गलोष्ठे राष्ट्रं वै वैश्वानरो विरुतो वै विश्वा नरकं हुत्वा मारुताञ्जुहोति राष्ट्रदेव विषमनुपध्नात्युक्षे वै विश्वा नरस्याश्रमयत्युपागुंशुमारुताञ्जुहोति तस्माद्राष्ट्रं विषमति मारुता भवन्ति देवानां विष ेव विषेनै वास्मै मनुष्यविषमवरुन्धे सप्त भवन्ति सप्त गण मयि मरु गणशदेव विषमवरुन्धे गणमनुधृत्यजुहोदि विषमे वा स्म अनुवर्त्मानम् करोति वसोर्धाराञ्जुहो दिवसोर्मे धारा सदि दिवालेशा भूजते हृदस्य मालेन मेषाधारामुष्मिन्लोके विममानोपेष्ठः आर्येन ज्योतिते जो माशन्देजो वसोर्धारा तेजसैवास्मि तेजोवरुं तेजो गा मा वै वसोर्धारा गामाणेवा वरुं ते स्यान्नाद्यं विच्छिन्जामिति विग्राहन्तस्थजिहुयात् प्राणानेव स्यान्नाद्यं विच्छिन्न त्रिङ्कामजे प्राणा स्यान्नाज्जुं सन्दनुयामिति सन्दतान्तस्तजुहुयात् प्राणानेव स्यान्नाज्जुं सन्तनोति जाहे तद्वा अन्नस्य रूपेणैवान्नमवरुन्धेस्तमाजित्याहेशा वा अन्नस्य जो निस्सजो नैवान्नमवरुन्धे अर्ध्येन्द्राणि जुहोति देवता एवा वरुन्धे यत्सर्वेषामर्धमिन्द्र प्रचितस्मादिन्द्रो देवतानां यज्ञ यज्ञमेवावरुन्धेद्वै यज्ञस्य रूपगो रूपेणैव यज्ञमवरुन्धे वृतश्च मेशाकारश्च मलित्याः स्वकाकृत्या अग्निश्च मेघ मलित्याः एतद्वये ब्रह्मवर्चसस्य रूपगो रूपेणैव ब्रह्मवर्चसमवरुन्धमेतद्वै छन्दसा गो रूपगो रूपेणैव छन्दाकृन्धे ग्राश्च मे वत्सा ल्पात्यै भवश्च मरिद्रा छन्दसंवादेका च तिस्रश्च मनुष्य छन्दसं चभ्रश्चाष्टौ च देव छन्दसं चैव मनुष्य छन्दसं चावरुन्धात्रजस्रगुंशतो जुहोरि देवता देवावरुन्धाष्टा चत्वारि जगते प्रसवो जगत्देवास्मेनवरुन्धे वा जश्च प्रसवश्चेति द्वादशम् द्वादश मासाः संवत्सरः संवत्सर ेभ्यो वाथेजमिच्छमानस्तं देवा अब्रुवन्नुवनावत्तस्वाद्योद्वरं वृणयि मह्यमेव वाजप्रसवेजुहवन्य तस्मादग्निजे वाजप्रसवेजुह्वद्वाजप्रसवेजुहोदग्निमेव तद्भागे देन समर्थजभिषेकदेवास्य स चतुर्दशोति षामवरुद्ध्या अन्नस्यान्नस्य जुहोत्यन्नस्यावरुद्धा ऊदुम्बरेण स्ववेण जुहोचोर्वा उदुम्बरवोर्गन् नमोर्जैवास्मावोर्जमन्नमवरुन्धे देवानामभिषक्तोज्ञस्मादग्निचिवर्षति नावेदवरुद्ध्यज्ञमन्नमिदन्नाद्याः धा वेदभाव द्यमेवाभ्युपावर्तते न दोषासे श्रीकृष्णायै श्वेतवत्साज पयसाजुहा जह्नैवास्मै रात्रिं कृतापयति रात्रिराहरोहो रात्रे स्मै प्रत्येकामन्नाद्यं दुहाते राष्ट्रहृदो जुहोदृ राष्ट्रमे वा वरुन्धे षड्भिर्जुहोति षड्वार प्रतिष्ठति भुवनस्य त्रीणि जुहोरित्रिमे लोकाय भ्यदेव लोकेभ्यो वा तमवरुन्धे समुद्राचिनभस्वानित्याहैतद्वैवातस्य रूपकुम्भरूपेणैव वा तमवरुन्धेञ्जलिनाजुहो तेषामन्यथा स्वर्गाय वै लोकाय देवरथो युज्यते यत्रा वै देवर्गं प्रतिष्ठिता स्तोमा प्रतिष्ठितान्य ग्निर्जावानेवनियुमेव स्तोत्रेवानग्निष्टोमो भूमा त्वा स्यातपूर्भश्रिगते यावानेव यज्ञस्तमं ततो हरिद्वाभ्यां प्रतिष्ठ प्रस्तुतं भवद् ं वै नमोत्तरो यज्ञो नो न वादे तस्यानिष्ठक आहुति नवर्मष्टक आहु ज्योतिश्रवदिमै सातावं तीं यज्ञो यजमानो यत्पुनश्चितिं च मृत आहुतीनां प्रतिष्ठित्यै प्रत्याहुतस्तिष्ठं दिनयज्ञः पराभव दिन ोऽष्टावुवष्टाक्षरा गायत्री गायत्रे नैव छन्दसा चिमिते यदेकादशेन द्वादशजागते न छन्दोभिरेवैनं च मुदेन वाग्निर्य पुनश्चितिं चद्गुणश्चितिं चल्वा वर्णचेतव्येवादेशग्नसां बोधयति तादृगेभागे नोधयति तादृगे वदन्मनुभग्निवचिनुमपश्यै सा हाले छन्दश्चितं चिन्वेदपुषु गामो वै छन्दाश्चितं भूत्वा सुवर्गं लोकं पदधिकं गचितं चिन्वेदेव्यामि वाचितं चिन्वेदस्येता न् प्रैम भ्रादरुजान् नुदत उभयदः प्रभुगन् चिन्वेदः कामलेदप्रजातान् भादरुन् नु प्रजनिष्यमाणान् प्रैव जातान् भादृजाष्यमाणान् रथचक्रसितं यान् रजो वै रथो वज्रमेव भ्रादुरु प्रहरवे रचितं ेद पशुगामः पशुमाने परिसाह्यं वेद ग्रामकामो ग्राम्येव भवध्नादे स्वामित्रैर्विहल्याभिर्वै स वसिष्ठस्ये धा जगजमानायधनंक्षरा जगति जागतागत्ये वास्मे पशोनवरं धेष्ठावष्टावन्येषुष्णजोपदधा धृष्टाशभा पशो ने वा वरुं धे षण् तो नेव देवान् अवश्रवाजसादजदित्यष्टप्रतिपद्भवति तिस्रो साक्षादृथं भवन्तोन्यवारे देवग्राम्यारण्यायच्छरं भवति रस्मिन् आवाश्व यतये स्वरो वा स्व यतो प्रदक्षतः परान् परावदङ्गं दो ्रह्मसामं भवति सङ्कृत्यच्छावाकसामं भवो वा एष यदस्वमेत यत्सङ्कृत्यच्छावाकसामं भवत्यश्वस्य सर्वत्रायामहद्भवति सर्वस्याप्ते सर्वस्य चित्ते सर्वमेव त्माति सर्वभयति ओ